मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं नैन् अष्टधाप्रकृतिवर्णनं श्रीगणेशाय नमः श्रीशिव उवाच वरदानप्रभावेण गुणेशो ज्ञानवानभूत समर्थो भगवान् साक्षात् स्रष्टुं तत्र मनो दधे तस्य निःश्वसदो वेदा निमृतारूपधारिणः सर्वज्ञानकरा साक्षाद् भास्वन्तो गुरवः सदाम् पश्चात्तेन गुणेशेन समभूतात्मकं जगद स्रष्ठं सुषुक्तिसंज्ञं च महत्तत्त्वादिभिः समैः आनन्दव्यवहारत्वात्प्रधानमिति कथ्यते कारणद्वन्द्वभावानां तेन कारणकं स्मृतं मायातमः करी यस्मात् तेन तामसदां गदं समानव्यवहारं च प्रधानं मोहदम्बभौ स्वस्यापि जडभावश्च तेन न सदा किं तदो तदोमहद तपकृतं महोग्रं च दिव्यं वर्षसहस्रकं तेन प्रत्यक्षतां व्यादो गणेशो भक्तवत्सलः स्तुतः पूजितस्तेन कारणेन महायशाः सामर्थ्यं योगरूपं च ददौ परमभावितः वेदैश्चापि कृतं घोरम् भः परमदारुणं तेषां प्रत्यक्षतां यादो विघ्नेशो विघ्नवारणः वेदैश्च संस्तुतो देवस्तोत्रैः स्वस्वसमुद्भवैः ब्राह्मणस्पत्य सूक्तेन ब्रह्वजस्तुतवान्प्रभुम् गणेशशान्तिकेनैव यजुस्तं स्तुतवत्तथा नामाष्टकार्थकृत्स्तोत्रम् तेन साम्ना च संस्तुतः अथर्वशीर्षकं नाम तेनैवाथर्वणास्तुतः इत्यादिगाणपत्यश्च स्तोत्रैर्नानाविधैस्तुतः पूजितो मूलमन्त्रेण सन्तुष्टस्तेन विघ्नः सर्वेषाम् गुरुरूपा वै भविष्यथ वरं ददौ सर्वमान्या जगत्पूज्या वेदास्तेन कृतास्तदा साङ्गोपाङ्गसमाचारा गुरवस्ते मधा खलु पार्वत्युवाच तमोगुणमयं स्वामिन प्रधानं समरूपकं वरं प्राप्य गणेशात्तु किम्कृतं कृतं तेन तद्वद मुद्गल उवाच प्रियोक्तं वचनं श्रुत्वा हृष्टरो मा महेश्वरः तां प्रत्युवाच भगवान् स्मयन्निव सुशान्तधीः श्रीशिव उवाच शृणु प्रवक्ष्यामि गणेशप्रीतिवर्धने विभूतिं तस्य देवस्य वै भाग्यवती शिवे वरदानेन सृष्टं तेनापि सूक्ष्मकं हिरण्यगर्भमान्तर्यं सात्विकं स्वप्नरूपकं महदादिमहतत्वैः सूक्ष्मभूतैश्च संवृतं द्वन्द्वविज्ञानमूलं तदन्तरिक्षिदम्बौ बोधहीनेन तेनैव तपस्तप्तं सुदुष्करं तेन तुष्ठो गणेशानु वाञ्छिदं प्रददौ वरम् वरदानप्रभावेण नानासामघ्यवानभूत हिरण्यगर्भो भगवान् स्वप्नमायाधरः प्रभुः तेन स्थूलस्वरूपं यच्छृष्टं राजसत्सञ्ज्ञकं जाग्रद्भोगकरम्पूर्णं तत्त्वैश्च स्थूलरूपिभिः ज्ञानहीनेन तपस्तप्तं सुदारुणं तपसा चैव सन्तुष्टो प्रत्यक्षदाम् ययौ तस्य जाग्रदन्नमयस्य च तेनापि पूजितो देवस्तु दस्तस्मै वरं ददौ वरदानप्रभावेण नानाः सामर्थ्यवानभूद ईश्वरोन्नमयश्चार्षावेकोऽनेकमकल्पयद स्वप्न जाग्रस्वप्नसुषुप्त्याख्यत्र्यवस्थाप्रचुराणि च भिन्नभिन्नानि जातानि कोडिशक् कोडिश्यक् खलु गुणेश्वरोमकूपेभ्यो निःसृतानि महान्ति च अण्डानि भिन्नभिन्नानि सर्वदसंस्थितानि वै व्याप्यरूपाणि चाण्डानि व्यापकश्च गुणेश्वरः तयोरभेदभावे स प्रकृतिर्ब्रह्मबिन्दुकम् जाग्रदासृष्टमाकाश्यं ब्रह्म सर्वप्रकाश्यं शब्दमात्रमयं भूदमादिरूपं सनातनम् आकाशे आकाशेन च संसृष्टो वायुस्पर्श गुणात्मवान् वायुनारूपतन्मात्रम् तेजसृष्ठम् प्रकाशवत तेजसारससंयुक्ता आपसृष्टाः प्रसारिणा अद्भिर्गन्धगुणा पृथ्वी सृष्टा धारणधर्मिका तत्रैकैकप्रवेशेन पञ्चीकरणभागतः पृथ्वी पञ्चगुणा जाता चतुर्भुदप्रवेशनाद आपश्चदुर्गुणा तेजस्त्रिगुणतां प्राप्तं भूतयोश्च प्रवेशनाद वायुर्द्विगुणवाञ्जात आकाशस्य प्रवेशनाद आकाशमेकगुणभृदानां ब्रह्म संज्ञितम् पञ्चभूतानि जातानि व्यवस्था संयुतानि च अष्टाप्रकृतिः प्रोक्ता कोशरूपा सुशोभना तत्र कोशीस्वरूपेण गुणेशो बिम्बितो यतः तेन सामर्थ्यमाप्राप्ता प्रकृतिश्चाष्टरूपिणी अष्टावरणसंयुक्तमण्डं सृष्टं स्वभावतः तत्रैव पुरुषो जज्ञे विराट्स भगवान् शिवे पञ्चाशत्कोटिविस्तारः पृथ्व्या प्रोक्तो मया च आपो दशाधिकास्तस्यास्तेजष्टाभ्यो दशाधिकं तस्मात् दशाधिको वायुस्तस्मात् स्वं वै दशाधिकं तस्मात् दशाधिकं जाग्रदभिमानं प्रपद्यते तस्मात् दशाधिकं स्वप्नं महत्व स्मृत नाम क्पी कध्य मुनि तस्मा दशुनायाज्ञे या सौषुक्ति का गणेशपुरषोज्ञे नंदो पारचुर्थक विराडावरणं कृत्वा स्थिता पृथ्वी सनातना अद्धिः समावृता पृथ्वी तेजसापः समावृताः वायुना चावृतं तेजकेन वायुःसमावृतः अहङ्कारेण संवृत्तमाकाशं देवी सर्वतः अहङ्कारश्च महदा संवृदो राजसस्वयम् मायया च महत्तत्त्वम् संवृद्धम् स्वप्नसंज्ञितम् मायावरणमान्द्यम् च ज्ञातव्यम् विबुद्धैः परम् अष्टावरणसंयुक्तमण्डं ते कथितं मया अण्टान्येतादृशान्ये वा सङ्ख्यातानि प्रिये बभुः स्तिर्यगूर्ध्वमधस्तद्वद्गुणेशेन धृतानि च ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि वक्रतुण्डचरिते अष्टधा प्रकृतिवर्णनम् नाम नवमोऽध्यायः ओ